कच्चिन्नकृतकैर्दुतैर्ये चाप्यपरिशङ्किताः त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा मित्रोदासीनशत्रूणां कच्चिद्वेत्सिचिकीर्षितं कच्चित्सन्धिं यथा विग्रहं चोपसेवसे कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे कश्चिदात्मसमावृद्धाः शुद्धाः सम्बोधनक्षमाः कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः विजयो मन्त्रमूलोहि भवति भारत कच्चित् संवृतमन्त्रैस्तैरमात्यैशस्त्रकोविदैः राष्ट्रम् सुरक्षितम् तात शत्रुभिर्न विलुप्यते कच्चिन्निद्रावशम् नैषी कच्चित् काले विबुध्यसे कच्चिचा पर चिंतम कच्चिमंत्रे नैक सह कचिते मंत्रि मंत्रो न राष्ट्र पैध कच्चिदर्थान् विनिश्चित्य लघुमूलान् महोदयान् क्षिप्रमारभसे कर्तुं न विघ्नयसितादृशान् सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः सर्वे वा सृष्टाः संसृष्टं चात्रकारणम्